नमोऽध्यायः ध्यारम् ॐ बन्धुककाञ्चननिभं रुचिराक्षमाणां पाशाङ्कुशौ च वरदां निजबाहुदण्डै बिभ्राणमिन्दुसकलाभरणं त्रिनेत्रम् अर्थाम्बिके बपुराश्रयामि ॐ राजुवाच विचित्रमिदमाख्यातं भगवन् भवता मम देव्याश्चरितमाहात्म्यं रक्तबीजवधाशितं भूयच्छिचां भूयस्थिच्छाम्यहं श्रोतुं रक्तबीजे निपातिते चकारशुम्भो यत्कर्म निशुम्भश्चातिकोपनः ऋषुवाच चकारकोपमतुलम् रक्तबीजे निपातिते शुम्भासुरो निशुम्भश्च हतेष्वर्णेषु चाहवे हन्यमानम् महासैन्यं विलोक्यामरसमुद्वहम् अभ्यधावन्निशुम्भोऽथ मुख्यया सुरसेनया तस्यागृतस्तथा पृष्टे पार्श्वयोश्च महासुरा सन्दष्टोष्ट पुटा क्रुद्धा हन्तुं देवीमुपाययो आजगां महावीर्य शुम्भोऽपि स्वपदैवितः निहन्तुं चण्डिकां कोपा कृत्वा युद्धं तु मातृभिः ततो युद्धमतीवासी देव्या शुम्भनिशुम्भयोः सर्वरसमतीवोग्रं मेघयोरिव वर्षतो तिक्षेदास्ताक्षरास्ताभ्यां चण्डिकास्व सर्वोत्करैः ताडयामास चाङ्गेसु शस्त्रौ घैरसुरेश्वरौ निशुम्भो निशितम् खड्गं चर्मचादाय सप्रभम् अताडयन्मृषि सिंहम् देव्या वाहनमुत्तमम् वाहने देवे खिलप्रीणासि उत्तमम् चर्मचाप्यश्चन्द्रकं छिन्ने चर्मणि खङ्गे च शङ्किं शक्तिं चिक्षे पशुशुरः तामप्यस्य द्विधाचक्रे चक्रेणाभिमुखागता कोपाध्मातं निसम्भूथ शूलं जग्राहदानवः आयातं मुष्टिपातेन देवी तच्चाप्यचूर्णयन् आविद्या सुखदां सोऽपि चिक्षेप चण्डिकाम् प्रति सापि देव्या त्रिशूलेन भिन्नाभस्मत्वमागता ततः परतहस्तम् तमायान्तम् दैत्यपङ्गवम् आहत्य देविवाणौघैः अपातयत भूतले तस्मिन्निपतते भूमौ निशुम्भे भीमविक्रमे प्रातिरतीव संक्रुद्ध प्रयौहन्तुमम्बिकां सरतस्तथात्युच्चैर् गृहीतपरमायुधैर्भुजैरष्टाभिरतुलयेद्याप्या शेषं बभौ नभयान्तं समालोक्य देवी सङ्खममादयद् जाशब्दं चापि धनुश्चकारातिव दुस्सहम् पूरयामासकककुभो निजघण्टास्वनेन च समस्तदैत्यसैन्यानां तेजोवदविधायिनां ततः सिंहो महानादये त्याजतेभमहामदये पूरयामास गगनं गाम् तथैव दिशो दश ततः समुत्पत्य गग्नम् क्ष्वामताडयत् कराभ्याम् तन्निनादेन प्राक्ष्नास्थितिरोहिता अट्टाट्टः समशिवम् शिवदूते चकारह तैः शब्दै सुरास्त्रेषु शुम्भकोपम् परं जयौ दुरात्मतिष्ठतिष्ठेति ज्याजहाराम्बिका यदा तदा जयेत्य भीतम् देवैराकाशसंस्थितै शुम्भेनागत्या शक्ति मुक्ता ज्वरातिभीषणम् आयान्ति वह्निकूटाभा सा निरस्ता महोल्लुकयाम् सिङ्गनादीनशुम्भश्च व्याप्तम् लोकत्रयान्तरम् निर्घातनिशनो घोरो जिता बालवनीपते शुम्भमुक्ताञ्छन् देवी शुम्भस्तत्प्रहिताच्छरान् चिक्षेदश्व शरैरुग्रैः स तदाभिहतो भूमौ मुर्छितो निपपातः ततो निशुम्भ सम्प्राप्य चेतनामात्तकार्मुकः आजखान् सरेदेवीम् कालिम् केशरिणम् तथा पुनश्च कृत्वा बाहूनाम् अयि तम् दनुजेश्वरः चक्रायुधेन दितीजच्छादयामास ततो भगवती क्रुद्धा दुर्गा दुर्गार्तिनाशिनी चिक्षेदतानि चक्राणि श्वशरी सायताश्च तान् ततो निशुम्भो वेगेन गदामादाय चण्डिकाम् अभ्यधावत वै हन्तुम् दैत्यसेना समावितः तस्यापद एवासु गलां चिक्षेत चण्डिका खड्गेन सितधारेण स च शूलं समाददे शूलहस्तं समायान्तं नृशुम्भमरार्जनं हृदिविव्यासशूलेन वेगाविद्धेन चण्डिका भिन्नस्य तस्य शूलेन हृदया निःश्रितोपरः महाबलो महावर्य, तिष्ठेति पुरुषो वदन् तस्य निष्क्रामतो देवी रहस्य श्वनुं दत्ततः शिरश्चिच्छेदखड्गेन ततो सावपदद्भुवि ततः सिंहश्च खादोऽग्रं द्रष्टाच्छिन्नशिरोधरान् असुरांस्तांस्तसा काली शिवदूती तथा परान् कुमारीसक्तनिर्भिन्नाः केचिन्ने सुरमहाशुराः ब्रह्माडि मन्त्रपूतेन तोयेनाान्ये निराकृता माहेश्वरी त्रिशूलेन भिन्नापेतुस्तथापरे वाराही तुण्डघातेन केचिच्चूर्णीकृता भुवि खण्डं खल्णम, खण्डं च चक्रेण वैष्णव्यादानमाकृताः वज्रेण चेन्द्रियहस्ताग्रविमुक्तेन तथा परे केचिद्विनैसुरसुराः केचिन्नष्टा महाभवा भक्तिताश्चापरे काली शिवदूती मृगाधिपै ॐ श्रीमार्कण्डे पुराणे श्रावणिके मन्वन्तरे देवी महात्म्ये निशम्भवधू नाम ॐ श्रीदुर्गायै नमः